हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकोनाशीतितमः सर्गः श्रीरामेण मकराक्षस्य अवध निर्गतं मकराक्षं ते दृष्ट्वा वा नरपुङ्गवः आप्लुत्य स च सर्वे योद्धु व्यवस्थितः ततः प्रवृत्तं तद्युद्धं लोमहर्षणम् निशाचरैः प्रवङ्गानां देवानां दानवैरिव वृक्षशूलनिपातैश्च गदा परिघपातनैः अन्योन्यम् वर्धयन्ति स्म तदा कपि निशाचरः शक्ति खड्गगदा कुन्तैः सोमरैश्च निशाचरः बाणपातैः समन्ततः पाश्यमुद्रदण्डैश्च निर्घातैश्चा परे ततः कदनं कपिसिंहानां चक्रूते रजनीचरः बाणो भैरर्जिता चापि करपुत्रेण वानरः सम्भ्रान्त मनसः सर्वे दुद्रुवोर्भयपीडिताः तान् दृष्ट्वा सर्वे द्रवमानान् व नौकसः ने दूते सिंहवद्धृप्ता राक्षसा जितकाशिनः विद्रवत्सु तदातेषु वानरेषु समन्ततः रामस्तान् वारयामास शरवर्षेण वारितान् राक्षसान् वारितान राक्षसान धृष्ट्वा मकराक्षो निशाचरः कोपानालसमाविष्टो वचनम् चेदमब्रवीत् तिष्ठ राम मया सार्धम् द्वन्द्वयुद्धम् भविष्यति त्याजयिष्यामि ते प्राणान् धनुर्मुक्तये शिते शरे यत्तथा दण्डकारण्ये पितरम् हतवान् मम तदग्रतः स्वकर्मम् स्मृत्वा रोषोभिवर्तते दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव यन्मयासि न तस्मिन् काले महावने दिष्ट्यासी दर्शनं राम मम तम् प्राप्तवान् निः काङ्क्षितोऽसि क्षुधार्थस्य किंवत् सेवेतरो मृग अद्य मद्बाणवेगेन प्रैतराविषयं गतः ये त्वया निहता सहतैश्च वसिष्यसि बहुनात्र किमुक्तेन शृणुराम वचो मम पश्यन्तु सकला लोका सामां जै वरणाजिरे अत्रैर्वाघदया वापि बाहुभ्यां वारणाजिरे अभ्यस्तं येन वा राम वर्तमां तेन वा मृधं मक्राक्ष वच च श्रुत्वा रामोद शरथात्मजः अब्रवीत् प्रसंवाक्यम् उत्तरोत्तरवादिनम् कथ्यसे किम् वृथा रक्षो भौन्यसदृशा निते न शक्यते जेतुम् विना युद्धेन वाग्बलात् चतुर्दश सहस्राणि रक्षसाम् तत्पिता च य दण्डके निहतो मया स्वाधीताश्चात्ममांसेन गृध्र गोमायुवाय सः भविष्यन्त्यद्य वै पाप तीक्ष्णदुण्ड नखाङ्कुशाः राघवेणैव मुक्तःस्तु मकराक्षो महाबलः बाणो घान्मुच्च तस्मै राघवाय रणाजिरे ताञ्चराञ्चरवर्षेण रामचिच्छेद नैकधा पेतुर्भुविच्छिन्ना रुक्मपुङ्खा सहस्रशः तद्युद्धम् अभवत् तज्युद्धं समेत्यान्योन्यमोजस खर राक्षस पुत्रस्य सूनोर्दशरथस्य च जिमोतयोरिवाकाशी शब्दो जातरयोरिव धनुर्मुक्तः स श्रूयते च रणाजिरे देव दानवगन्धर्वा किन्नरा च महोरगः अन्तरिक्ष गता सर्वे द्रष्टुकामास्तदभुतम् विद्धम् अन्योन्यगात्रेषु द्विगुणं वर्धते बलम् कृतपति कृतान्योन्यम् कुरुतां तौ रणाजिरे राममुक्तास्तु राक्षस स्वच्छिदक्षिणतृणे रक्षो मुक्तासु रामो वै नैकधा प्राच्छिनश्चरै बाणोघ वितथा सर्व दिश च प्रदिशस्तथा संच्छन्नावसुधा चैव समन्तान्नः प्रकाशते ततः क्रुद्धो महाबाहु धनुच्चिच्छेदसंयुगे अष्टाभिरथ सूतं सूतम दिव्याध रागविथम चीराम हवाश पात विरथो निशाचरहे, शूलं जग्राह निषाचर त्रासनं वसुधा रक्ष शूलम जग्राहिनासनम सर्वूताभम दुर्वापूलम रुद्रदत्तम् भयङ्करम् जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम् यम् दृष्ट्वा देवता सर्वा भयाता विद्रुता दिशः विभ्राम्या च महचूलम् प्रज्वलन्तं निशाचरः स क्रोधात्वा हिणोत्तस्मै राघवाय महाहवे तम् आपतन्तं करपुत्र कराच्युतम् बाणे चतुर्भिराकाशे शूलम् चिच्छेद राघवः स भिन्नो नैकधाशूलो दिव्यहाटकमण्डितः शिर्यत महोल्गेव रामबाणार्दितो भुवि तच्छूलम् नियतम् दृष्ट्वा रामेणाकृष्ट कर्मणा साधु साध्वीति भूतानि व्याहरन्ति नभोगतः तम् दृष्ट्वा निहतम् शूलम् मकराक्षो निशाचरः मुष्टिम् मुद्यम् मे काकुत्स्थम् तिष्ठ तिष्ठेति चाब्रवीत् तत् तम् दृष्ट्वा पतन्तम् तु रहस्य रघुनन्दनः पावकास्त्रम् ततो सन्दधे तु शरासने तेनाश्रेण तं रक्ष काकुत्स्थेन तदारणे सञ्च्छिन्न हृदयं तत्र स्वपात्र च दृष्ट्वा ते राक्षसा सर्वे वकराक्षस्य पातनं लङ्का पव प्रधावन्त रामबाण भयादिता दशरथ ध्रूपसुनुबाण वेगे रजनिचरं नियतं कराद्मजं तम् तदृश्यशूरथ देवता प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् इत्यार्थे श्रीमद् रामायणे वाल्मीकीयाधिकारे युद्धकाण्डे